हरि <Sessly> ओं श्री श्रीप रामचन्द्रभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे एकोनपञ्चाशत् सर्गः ग्रामाण्यां वार्तां श्रुणुतः श्रीरामस्य कोशल श्रीमानम् अतिक्रम्य गमनं वेद श्रुति गोमती चन्द्रख्या सरितय समुत्तीर्य तस्य सुमन्त्रं प्रति किञ्चित् निवेदनम् रामोऽपि रात्रिशेषेण तेनैव मदन्तरम् जगम पुरुष व्याघ्रे पितुराज्ञाम् अनुस्मरन् तथैव गच्छत् तस्य व्यपाया द्रजनि शिव उपास्यतु शिवां सन्ध्याम् विषया न ग्रामान् विकृष्ट सीमान्तान् पुष्पितान् देवनानि च पश्यन् ययो शीघ्रम् शनैरेव ह्योत्तमये शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनां राजानं धिग्धशरथम् कामस्य क्षमास्थितम् सान्धृशं साध्यकैकेयी पापा पापानुबन्धिनी तीक्ष्णा सम् भिन्नमर्याद तीक्ष्णकर्मणि वर्तते या पुत्र मीदृशं प्रवासयति धार्मिकं वनवासी महाप्राज्ञम् सानकोषं जितेन्द्रियम् कथं नाम महाभाग सीता जनकनन्दिनी सुदा सुखेश्व भिरता दुःखानि अनुभविष्यति अहो दश निस्नेह स्व सुतम् प्रति प्रजानाम् अनघम् रामम् परित्यक्तुम् इच्छते एतावाचो मनुष्याणां ग्रामसंवासवासिनां शृण्वन्सि ययो वीर कोसलान् कोसलेश्वर ततो वेद श्रुतिम् नाम शिववारी वहं नदीम् उत्तरीयाभिमुखप्राय अगत्या गत्वा तु कालम् तत् शीत एव नदीं गोमतीं गोयुता नूपाम् अतरे सा गङ्गमां गोमतीं चाप्यतिक्रम्य राघवे शीघ्र गैहये मयूर हंसाभिरताम् तता नदीं स मयि मनुनार्या सप्ता वै दहीम दर्शय सूत्यभ्याथी तमीक्षण हंस मत श्रीमान उवाच पुषोत्तम कदम पुनरागम्य सरवाय पुष्पिवृगयाम पर पर्यट्या मात्र पिता चर्थम अभिकांक्षा मृगयाँ सरयु वने प्रतिर्ह्ये शायतुलोके राजशी गणसम्मतय राजश्रीणां हि लोकेऽस्मिन् प्रत्यर्थं मृगय वने काले कृतां तां मनुजये धनविनाम् अभिकाङ्क्षितान् शैतम् मध्वानमै तं तमर्थम् अभिप्रेक्ष ययो वाक्यम् उदीरयन् इत्याश्री श्रीमद् रामायणे वाल्मीकीय अधिकार्ये अयोध्याकाण्डे एकोन पञ्चाशत् सर्गः श्रीसीता